विचित्रवाञ्चा कश्चित् उत्सवम् अधिकृत्य मन्दिरस्य भोजनालये महता प्रमाणेन सह भोजनम् आयोजितम् आसीत् भोजनम् आरब्धं साम्प्रदायिकरीत्या भोजनालये भूमौ पङ्करूपेण खदलीदलानि स्थापितानि आसन् तत्पुरतः जनाः उपविश्य खादन्ति स्म भोजपदार्थानां भागत्वेन बीजोपेतफक्काम्रफलनिर्मितः कश्चन पदार्थविशेषः आसीत् कश्चित् भक्षलोलुपः आम्रफलं हस्तेन सम्पीड्य तस्य रसं आस्वादयन् आसीत् तदा आम्रफलस्य बीजं तस्य हस्तात् कलितं सत् पार्श्वे उपविष्टस्य दला न्यपतत् एतेन भक्षलोलुपस्य वदनं म्लानम् अभवत् तदा तं दृष्ट्वा पार्श्वस्थ उपवतात् चिन्ता मां करोतु आम्रबीजस्य स्पर्शनेन मम खाद्यम् अतीव न दूषितम् इति तदा भक्षलोलुपः अकथयत् मम दुःखस्य कारणम् अन्यदस्ति आम्रबीजं न्यूनातिन्यूनं दशदलानि स्पृष्ट्वा अग्रे गच्छेत् इति आसीत् मम आशयः इति